सर्गः ज्ञातिदासीयतो जाता कैकेय्या तु सहोषिता प्रासादम् चन्द्र सङ्काशमारुरोहयदृच्छया सिक्तराजपथाम् कृत्स्नाम् प्रकीर्णकमलोत्पलाम् अयोध्याम् मन्थरा तस्मात् प्रासादादन्ववैक्षता पताकाभिर्वरार्हाभिर्ध्वजैश्च समलम् कृता सिक्ताम् चन्दनतोयैश्च शिरः स्नातजनैर्युताम् माल्यमोदकहस्तैश्च द्विजेन्द्रैरभिनादिताम् शुक्लदेवगृहद्वाराम् सर्ववादित्रनादिताम् सम्प्रहृष्टजनाकीर्णाम् ब्रह्मघोषनिनादिताम् प्रहृष्टवरहस्त्यश्वाम् सम्प्रणर्दितगोवृषाम् हृष्टप्रमुदितैः पौरैरुच्छ्रितध्वजमालिनीम् अयोध्याम् मन्थरा दृष्ट्वा परं विस्मयमागता सा हर्षोत्फुल्लनयनाम् पाण्डुरक्षौ मवासिनी अविदूरे स्थिताम् दृष्ट्वा धात्रीम् पप्रच्छ मन्थरा उत्तमेनाभिसंयुक्ता राममाता धनम् किम् नु जनस्यास्य चशम् समे कारयिष्यति किम्वापि सम्प्रहृष्टो महीपतिः विदीर्यमाणा हर्षेण धात्री तु परया मुदा आचचक्षेथ कुब्जायै भूयसीम् राघवे श्रियम् श्वः राजा दशरथो राममभिषेक्ता हि राघवम् श्रुत्वा कुब्जा कैलासशिखराकारात् प्रासादादवरोहत सा दह्यमाना क्रोधेन मन्थरा पापदर्शिनी शयानामेव कैकेयीमिदम् वचनमब्रवीत् उत्तिष्ठमूढे किम् शेषे भयम् त्वामभिवर्तते उपप्लुताघोघेन आत्मानमवबुध्यसे अनिष्टे सुभगाकारे सौभाग्येन विकत्थसे चलम् हितवसौभाग्यम् नद्या स्रोत इवोष्णगे एवमुक्ता तु कैकेयीरुष्टया परुषम् वचः कुब्जया पापदर्शिन्या विषादमगमत्परम् कैकेयी त्वब्रवीत् कुब्जाम् कच्चित्क्षेमन्न मन्थरे विषण्णवदनाम् हि त्वाम् लक्षये कैकेय्या मधुराक्षरम् उवाचक्रोधसंयुक्ता वाक्यम् वाक्यविशारदा सा विषण्णतरा भूत्वा कुब्जा तस्याम् हितैषिणी विषादयन्ती प्रोवाच भेदयन्ती च राघवम् अक्षयम् सुमहद्देवि प्रवृत्तम् त्वद्विनाशनम् रामन्दशरथो राजा यौवराज्येऽभिषेक्ष्यति सा दह्यमानानलेनेव त्वद्धितार्थमिहागता तव दुःखेन कैकेय मम दुःखम् महद्भवेत् त्वद्वृद्धौ मम वृद्धिश्च भवेदिह न भवे नराधिपकुले जाता महिशीत्वं त्वम् महीपतेः उग्र त्वम् राजधर्माणाम् कथम् देवि न च दारुणः शुद्धभावेन जानीषे तेनैव मतिसन्धिता उपस्थितः प्रयुञ्जानस्त्वयि सान्त्वमनर्थकम् अर्थेनैवाद्यते भर्ता कौसल्याम् अपवाह्यतु दुष्टात्मा भरतम् तव बन्धुषु काल्ये स्थापयिता रामम् आशीविष इवाङ्गेन बाले परिधृतस्त्वया यथा हि कुर्याच्छत्रुर्वा सर्पो वा प्रत्युपेक्षितः राज्ञा दशरथेनाद्य सपुत्रा त्वम् तथा कृता पापेनानृतसान्त्वेन बाले नित्यम् सुखोचिता रामं स्थापयता राज्ये सानुबन्धा हताह्यसी सा प्राप्तकालङ्कैकेयि क्षिप्रम् कुरुहितम् य स्वपुत्रमात्मानम् माम् च विस्मयदर्शने मन्थराया वचश्रुत्वा शयनात् सा शुभानना उत्तस्थौ हर्षसम्पूर्णा चन्द्रलेखेव शारदी अतीव कैकेयी विस्मयान्विता दिव्यमाभरणन्तस्यै कुब्जायै प्रददौ शुभम् दत्त्वाभरणन्तस्यै कुब्जायै प्रमदोत्तमा कैकेयी मन्थराम् हृष्टा पुनरेवाब्रवीदिदम् इदम् तु मन्थरे मह्यमाख्यातम् परमं प्रियं एतन्मे प्रियमाख्यातं किम् वा भूयः करोमि ते रामे वा भरते वाहम् विशेषम् नोपलक्षये तस्मात्तुष्टास्मि यद्राजा रामम् राज्येऽभिषेक्ष्यति नमे मे परम् किञ्चिदितो वरम् पुनः प्रियम् प्रियार्हे सुवचम् वचोऽमृतम् तदा ह्यवोचस्त्वमतः प्रियोत्तरम् वरम् परम् ते प्रददामितम् वृणु इत्यार्षे श्रीमद् रामायणे आदिकाव्ये अयोध्याकाण्डे सप्तमः